मुद्गलपुराणं खण्डं टु एकदन्तचरितम् अध्यायं 42 टु भृगुचरितम् श्रीगणेशाय नमः कृत्समद उवाच श्यवनेन तथा यज्ञेश्विनौ तौ भागसंयुतौ कृत्वा चावकितौ तत्र तद इन्द्रो ब्रवीध्वजः इन्द्र उवाच अश्विनौ भिषजौ प्रोक्तौ मुने तस्मान्न योग्यता यज्ञभागे तयोः स्वामिन्माह्वये यदि वदाम्यहम् अभवन्मुनिमुख्योऽसौ त्यक् वचनं ततः समुद्युक्तश्च तौ तत्राह्वयितुं त्व सुरेश्वर तद इन्द्रो ब्रवीद्विप्रं च्यवनं क्रोधसंयुधः वज्रेणैव हनिष्यामि यद्यायातौ मुनेश्विनौ श्यवनेन सहायेन अश्विनौ तत्रागदौ मखे अश्विनौ तौ तदा दृष्ट्वा वज्रं दध्रे पुरन्दरः च्यवनेन स तस्य प्रस्थम्भिदो भुजः तपसा स्वप्रभावेण मदं संसृजे मुनिः ग्रसितुं सयया विन्द्रं च्यवनेन प्रचोदितः विस्मिता मुनयो देवा दृष्ट्वा वीर्यं महामुनेः विकरालमुखं वीरं ललिहाननभस्थलम् अञ्जनाद्रिसमं श्यामं ददृशुस्तं मदं मखे भयभीदास्तदो देवसेनामुनिगणाजनाः अन्ये प्रदुद्रुभुस्तत्र त्यक्त्वा यज्ञं दिशो दश मदस्तुग्रसितं तत्रेन्द्रसान्निध्यं समाययौ तं दृष्ट्वा भयभीदशच्यवनं शरणं ययौ इन्द्र उवाच अश्विनौ भागसंयुक्तौ मया मान्यौ कृतौ मुने मदान् मां रक्ष विप्रेष्य ग्रसिष्यदि न संशयः ततस्तेन भयं दत्तमिन्द्राय शरणार्थिने मतं च तपसाश्वेन वारयामास भार्गवः समाप्यत्यवनो यज्ञं ययौ पितृगृहे मुनिः प्रणनामसभाज्यस्तं भृगुं योगविदाम्बरं तेन सम्मानिधपुत्रस्तपःसिद्धश्च सन्निधौ च्यवनश्च क्रियत्कालमवसत्सेवनोत्सुकः कदाचिच्यवनं विप्रं भृगुपरमतत्त्वविद उवाच ज्ञानसिद्ध्यर्थं स्वसुतं कृपया युधः भृगुरुवाच शृणुपुत्र प्रवक्ष्यामि किं कृतं त्वया मदस्व तपसा सृष्टो देवेन्द्रस्य भयावहः तपो बलमदेनैवं कुरुषे कर्मतापसा मदयुक्तोऽसि पुत्रत्वं त्यजतं योगसेवया शृणु वृत्तान्तमादौ त्वम् मदीयं कथयामि ते मया तन्मदयुक्तेन तपोवीर्येण यत्कृतम् सततं तपसा युक्तो प्रतपामि तपोमहद मध्ये मुनीनां सर्वेषां श्रेष्ठोऽहं तपसाभवं भवं येकदा मुनयः सर्वे मिलिता गौतमीतडे सिंहस्ते च गुरौ पुत्र तत्र वादो भवन्महान् पितामहं परं श्रेष्ठं जानामि सगुणं सुदा ब्रह्मरूपं महात्मानं सर्वस्रष्टारमञ्जसा सगुणं केजिदूचुश्च भिन्नदेहधरं शिवं केजिद्विष्णुं तदा ब्रह्मन् केजिद्ब्रह्माणमञ्जसा तत्र सर्वैरहं पुत्रप्रेषितः कार्यसिद्धये परीक्षार्थं तपःसिद्धस्त्रिष्वेवं निश्चयार्थिभिः अहम् पितामहं श्रेष्ठं जानाम्यत्र न संशयः तं व्ययौ पितरं सिद्धं परीक्षार्थं महामुने तमप्रणम्य विश्वेश्यं समासीनो महासने मां दृष्ट्वा दुर्विनीतं स कुपितश्च पितामहः उवाच मां सुरश्रेष्ठ किं मदेन समन्वितः समागतोऽसि दुर्बुद्धे गच्छत्वं स्वगृहेऽधुना तदोवदं सुदाचादौ पत्नीभावेन सन्धृता त्वया तत् किं मया कृतं वद तातस्तुक्षुभिदोऽत्यन्तं स च तादं तं दण्डवद्भूमौ नदोऽहं भक्तिसंयुधः अवदं तं महाभागं मां क्षमस्व महागसं परीक्षार्थं महाभिप्रायः प्रेषितोऽहं पितामः क्षमस्वेदं कृतं कर्मत्वं श्रेष्ठः सर्वभावतः स्तुत्वादं विविधैर्वाक्यैस्तधः कैलासमागमम् दृष्ट्वा मां तापसम्पुत्रभ्रातरं सहसा शिवः आलिङ्गितुं समायादो निजभक्तसुखप्रदः अवदन्महदत्यन्तं दुर्वचस्तं परीक्षितुं मां स्पृश शिशाचेशवर्णाश्रमविवर्जित नरमस्तकमात्रादिचिह्नयुक्तो शुचिः सदा नाम्ना शिवो शिवस्त्वम् वै ज्ञातं ते चेष्टिदम् मया यदि मग्गिरमाकर्ण्यक्रोधयुक्तः सदा शिवः तृतीयम् नेत्रमुद्धाड्यज्वालितं चोद्यदो भवद तदस्तं स्तुतवान् पुत्रप्रणदो दण्डवत्क्षितौ परीक्षार्थमिदं कर्म कृतं त्वं क्षन्तुमर्हसि ब्राह्मणं मां विदित्वा सक्रोधं संहृत्य शङ्करः संस्थितस्तत्र कैलासे वैकुण्ठे गतवानहं लक्ष्म्या सह विष्णुं दृष्ट्वा प्रहर्षितः सोऽपि लक्ष्म्या नदः सद्यः पादयोर्मम पुत्रः मया निर्भर्षितोऽत्यन्तं पादं मा स्पृश दुर्मदे स्त्रीवेषधारी जादोऽसि त्वं तेन मलिनो मदः मदीया स्त्री त्वया दुष्टवर्धिता गर्षितम् कृतम् वाक्यर्मया सौ निन्दितो भृशं ततो विष्णुस्वयं पुत्रकृताञ्जलिपुटस्थितः मया क्रोधेन पादेन हृदि सन्ताडितस्तदा तथापि न च पादं धृत्वा मदीयकं ताडनश्रमयुक्तं संवाही तं चकारः तदैव हृदये तेन पुत्र कुत्रलाञ्छनमेवेदं भृगुपादाङ्गिदं धृतम् अहं च निश्चयं कृत्वा गतो ब्राह्मणसंसदि कथितसर्ववृत्तान्तश्रेष्ठो स्मृतः क्षमा यत्र भवेद्विप्रास्तत्र सर्वं प्रतिष्ठितं क्रमेण प्राप्यते ब्रह्मक्षमा युक्तेन चेतसा तदोऽहं वैष्णवो जादो यदा विष्णुपरायणः कदाचिद् दक्षयज्ञे वै विष्णुर्मुख्यो बभूवः शम्भुं त्यक्त्वा हरिं मुख्यं दृष्ट्वा कं यज्ञकर्मणि मुख्यत्वमास्थितः पुत्र यज्ञकर्मप्रवर्धकः पार्वती तत्र दग्धादः शम्भुः कोपसमन्वितः मृतां सदीं स विज्ञाययौ गणसमावृतः विष्णुं निर्जित्य दक्षं तं हत्वा यज्ञः प्रणाशिदः मदीयं चिबुगं तत्र वीरभद्रेणपादिदं ब्रह्मणा सान्द्विधशम्भुर्दक्षं सञ्जीव्यतं मखं चकार स्वयमेवेश्य सम्पूर्णं भागसंयुतः आजं च चिबुगम् मे तेन महात्मना नन्दिना शापितस्तत्र वारुणीर्ह्यभवम् किल तदोऽहं मानसे पुत्रविस्मितः शङ्करं स्मरन् कालरूपी स्वयम् शम्भुः कालाधीनमिदम् जगद ईश्वरोऽयं शिवप्रोक्तः परं तस्मान्न विध्यते विचार्य शर चित्ते धुवाहम भजने शैवो रो नाना भस्ंगा लेपनेर नापाशुपर्गैरभज शंकर सदा यह कज्ञे क्षेत्रेना महाबले शैवे देवगणैर्ब्रह्मा मुनिभिश्च समन्वितः तत्रा स्मृतिर्गणेशस्य जादा तेषाम् महामखे उषकाले तदोज्येष्ठाम् त्यक्त्वा यत्नम् विधेनिरे गायत्री मुख्यभावाम वै प्राप्ताम् वीक्ष्यमः सावित्री कोपसंयुक्ता शशाप सकलामरान। जलरूपा भवन्तो वै भविष्यन्दिनसंशयः ज्येष्ठां सन्त्यज्य यज्ञो यमारब्धस्तेन भोः सुराः जलरूपास्ततो शम्भुमुख्या बभूविरे देवस्त्रीभिर्गणेशस्य तपः कृत्वा विमोचिताः पुनश्च देवरूपास्ते जादास्तस्य प्रसाददः गणेशस्य न सन्देहोऽशरूपेण जले स्थितः तदा मया च विज्ञातो गणेशो विघ्ननायकः सर्वसत् धरपुत्रस्वभावाच्च निरङ्कुशः नामदो गणपस्तत्र मखो महान् ध्वंसितो नेन देवाश्च जलरूपा कृता सुता पुनश्च भक्तिभावेन सन्तुष्टो यज्ञमाययौ देवरूपांश्चकारासौ सर्वत्र संस्थितोऽयं वै तेनेदृक् चकारख इति मत्वा गणेशस्य भजने तत्परो भवं तद कदाचिद्व्यासस्य सङ्गतिर्मे महामदे जादाभाग्यवशेनैव मया पृष्टो महामुनिः व्यासत्वं वेदशाखानां मुने कर्ता न संशयः पुराणानां विभागस्य भारतस्य महामते वेदेषु च पुराणेषु किं सारं सर्वसम्मतं वद मां दयासिन्धो येन शान्तिं लभेन्नरः अवदत्स महाभागो गणेशं पदमुत्तमं पुराणं गणनाधस्य श्रावयामास मां सुता तदोऽहं योगमार्गेण साधयित्वा गणेश्वरं मदादिं सर्वमुत्सृज्य शान्तिं प्राप्तो न संशयः मदेनाहं परिभ्रष्टपरीक्षां करुतुमुद्यतः सर्वज्ञोऽहं परीक्षायाम् समर्थशृणुपुत्रक अतस्त्वम् भज विघ्नेशं मम पुत्रकृताञ्जया शान्तिम् प्राप्स्यसि सर्वत्र गणपत्यो भविष्यसि सर्वत्रव्यापकत्वेन व्यापकत्वेन मदोऽयं भवद त्वया धुना पापी पीडयिष्यति निश्चित तपसमदयुक्तेन किं कृतं पुत्रदुःखदम् अधुना गणपं भग्र्या भजयोगस्य सेवया इत्युक्त्वा विररामाथ भृगुः सर्वार्थकोविदः शान्तिं योगप्रथसाक्षाद्गणपत्यो महायशाः इदं भृगोश्चरिदं यः शृणुयाद्वा पठेन्नरः लभे दीप्सितं सर्वं प्रह्लादात्र न संशयः ॐ तत्सदिति श्रीमदान्ध्ये पुराणोपनिषद्दि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते भृगुचरितं नाम शोध्यायः ओम्